मार्कण्डेयपुराणम् अध्यायं 45 जैमिनिरुवाच सम्यगे धन्ममाख्यातं भवद्भिर्द्विजसप्तमाः प्रवृत्तं च निवृत्तं च द्विविधं कर्मवैदिकम् अहो पितृप्रसादेन भवतां ज्ञानमीदृशं येन तिर्यक्त्वमप्येतत्प्राप्य मोह तिरस्कृतः धन्या भवन्तः संसिद्ध्यैः प्रागवस्थास्थितं यतः भवतां विषयोद्भूतैर्न चाल्यते मनः दिष्ट्या भगवदातेन तेन धीमता भवन्तो वै समाख्यादात् सर्वसन्देह हृत्तमाः संसारेऽस्मिन्मनुष्याणां भ्रमदामदि सङ्कटे भवद्विधैः समं सङ्गो जायते नातपस्विनां यद्यहं संगमासाद्य भवद्भिर्ज्ञानदृष्टिभिः न स्यां कृतार्थस्तन्नूनं न मेऽन्यत्र कृतार्थता प्रवृत्ते च निवृत्ते च जा भवदा ज्ञानकर्मणि मदिमस्तमलां मन्ये यथा नान्यस्य कस्यचित् यदि त्वनुग्रहवती मयि बुद्धिर्द्विजोत्तमाः भवतां तत्समाख्यातुमर्हतेदमशेषतः कथमेतत्समुद्भूतं जगत्स्थावरजङ्गमं कथं च प्रलयं काले पुनर्यास्यदि सप्तमाः कथञ्च वंशाद्य भूदादि पितृभूदादिसम्भवाः मन्वन्तराणि च कथं वंशानुचरितञ्चयत् यावत्यसृष्टयश्चैव यावन्तः प्रलयास्तथा यथा कल्पविभागश्च या च मन्वन्तरस्थितिः यथा चक्षुधिसंस्थानं यत्प्रमाणं च वैभुवः यथा स्थितिसमुद्राद्रिनिम्नघाकननानि च भूर्लोकादिस्वर्लोकानां गणःपादालसंश्रयः गदिस्तद्धार्कसोमादिग्रहर्षद्यो दिशामपि श्रोतुमिच्छाम्यहं सर्वं मे ददाहुदसम्प्लवम् उपसंहृते च यच्छेषं जगत्यस्मिन्भविष्यति पक्षिणचुः प्रश्नभारोऽयमधुलो यस्त्वया मुनिसत्तम पृष्ठस्तं ते प्रवक्ष्यामस्तच्छृणुष्वेह जैमिने मार्कण्डेयेन कथितं पुरा क्रौष्टुकये यथा द्विचपुत्राय शान्ताय व्रतस्त्रादाय धीमते मार्कण्डेयं महात्मानमुपासीनं द्विजोत्तमैः क्रौष्टुकिः परिपप्र च यदेतत्पृष्टवान्प्रभो तस्य चाकथयत्प्रीत्या यन्मुनिर्भृगुनन्दनः तत्ते प्रकथयिष्यामशृणुत्वं द्विजसत्तम प्रणिपत्य जगन्नाथं पद्मयोनिं पिधामहम् जगदोनीतिद स्थितौ विषुस्विण प्रलिएाकर्ता रौद्रम रुद्रस्विण मकंडेय उच उत्पन्नम्स पुरा ब्रमणो व्यक्तन्मन पुराण मेद्वेदाश मुखेभ्यो नु विनता पुराणसंहिताश्चक्रोर्बहुलाः परमर्षयः वेदानां प्रविभागश्च कृतस्तैस्तु सहस्रशः धर्मज्ञानञ्च वैराग्यमैश्वर्यं च महात्मनः तस्योपदेशेन विना न हि वेदान् सप्तर्षयस्तस्माज्जगृहुस्तस्य मानसाः पुराणं जगृहुश्चाद्यामुनयस्तस्य मानसाः भृगोः सकाश्चाच्यवनस्तेनोक्तं च द्विजन्मनां ऋषिभिश्चापि दक्षाय प्रोक्तमेदन्महात्मभिः दक्षेन चापि कथितमिदमासीत् तदा मम तत्तुभ्यं कथयाम्यद्य कलिकल्मषनाशनं सर्वमेदन्महाभागश्रूयता मे समाधिना यथा श्रुतं मया पूर्वं दक्षस्य गदतो मुने प्रणिपत्य जगद्योनिमजमव्ययमाश्रयं चराचरस्य जगतों परमं पदं ब्रह्माणमादिपुरुषमुत्पत्तिस्थितिसंयमे यत्कारणमनौपम्यं यत्र सर्वं प्रतिष्ठितं तस्मै हिरण्यगर्भाय लोकतन्त्राय धीमते प्रणम्य सम्यग् वक्ष्यामि भूतवर्गमनुत्तमं महदाद्यं विशेषान्तं सवैरुप्यं सलक्षणं प्रमाणै पञ्चभिर्गम्यं स्तोभिषड्भिरन्वितम् पुरुषाधिष्ठितं नित्यमनित्यमिव च स्थितं महाभाग महाभागपरमेण समाधिना प्रधानं कारणं यत्तदव्यक्ताख्यं महर्षयः यदाहुप्रकृतिं सूक्ष्मां नित्यां सदसदात्मिकां ध्रुवमक्षय्यमजरममेयं नान्यसंश्रयं गन्धरूपरस हृहेण शब्दस्पर्शविवर्जितम् अनाद्यन्तं जगद्योनित्रिगुणप्रभवाप्ययम् असाम्प्रदमविज्ञेयं ब्रह्माग्रे समवर्तत प्रलयस्यानुदेनेदं व्याप्तमासीदशेषतः गुणसाम्य तदस्तस्मात् क्षेत्रज्ञाधिष्ठितान्मुने गुणभावात्सृज्यमाना सर्गकाले ततः पुनः प्रधानं तत्त्वमुद्भूतं महान्तं तत्समावृणोद यथा बीजं त्वजा महान् सात्त्विको राजसश्चैव तामसश्च त्रिधोदितः ततस्तस्मादहङ्कारस्त्रिविधो वैव्यजायद वैकारिकस्तैजसश्च भूदादिश्च सदामसः महदा चावृतसोऽपि यथाव्यक्तेन वै भूदादिष्टु भूदादिस्तु विकुर्वाणशब्दतन्मात्रकन्ततः ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम् आकाशं शब्दमात्रन्दुभूतादिश्चावृणोत्तदः स्पर्श तन्मात्र मे वेह जायदे नात्र संशयः बलवाञ्जायते वायुस्तस्य स्पर्श गुणो मतः वायुश्चापि विकुर्वाणो रूपमात्रं ससर्जः ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते स्पर्शमात्रस्तु वै वायुरूपमात्रं समावृणोद ज्योतिश्चापि विकुर्वणं रसमात्रं ससर्जः सम्भवन्ति तदोह्यापश्चात्सन् रसं मात्रं, मात्रं तस्में तस्में तु ताह्यापो रूपमात्रं समावृणोद आपश्चापि विकुर्वत्यो गन्धमात्रं ससर्जिरे सङ्घातो जायते तस्मात्तस्य गन्धो गुणो मतः तस्मिंस्तस्मिंस्तु तन्मात्रं तेन तन्मात्रदा स्मृता अविशेषवाचकत्वादविशेषास्ततश्च ते न शान्तानापि खोरास्ते न मूठाश्चाविशेषतः भूदतन्मात्रसर्गोऽयमहङ्कारात्तु तामसाद वैकारिकादहङ्कारात् सत्त्वोद्रिक्तात् सात्विकाद वैकारिक स सर्गस्तु युगपत्सम्प्रवर्तते बुद्धेन्द्रियाणि पञ्चैव पञ्चकर्मेन्द्रियाणि च तैजसानेन्द्रियाण्याहुर्देवा वैकारिकादश एकादशं मनस्तत्र देवा वैकारिका स्मृताः श्रोतं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी शब्दादीनामवाप्त्यर्थं बुद्धियुक्तानि वक्ष्यते पादौ पायुरूपस्तश्च हस्तौ वाक् पञ्चमी भवेद् गतिर्विसर्गो ह्यानन्दशिल्पं वाक्यं च कर्म आकाशं शब्द मात्रन्दुस्पर्शमात्रं समाविशद द्विगुणो जायते वायुस्तस्य स्पर्शो गुणो मदः रूपं तथैवाविशदशब्दस्पर्श गुणावुभौ द्विगुणस्तु ततश्चाग्निस्सब्दस्पर्शरूपवान् शब्दस्पर्शश्च रूपं च रसमात्रं समाविशद तस्माच्चतुर्गुणा ह्यापो विज्ञेयास्ता रसात्मिकाः शब्दस्पर्शश्च रूपं च रसो गन्धं संहदा गन्धमात्रेण आवृण्वंस्ते महीमिमां तस्मात् पञ्चगुणाभूमिस्थूला भूतेषु दृश्यते शान्ताघोराश्च मूढाश्च विशेषास्तेन ते स्मृताः परस्परानुप्रवेशाद्धारयन्ति परस्परं भूमे रन्ध्रस्थितं सर्वं लोकालोकं खनामृतं विशेषाश्चेन्द्रियग्राह्या नियतत्वाच्च ते स्मृताः गुणं पूर्वस्य पूर्वस्य प्राप्नुवन्त्युत्तरोत्तरम् नाना वीर्या पृथग्भूताः सप्तैदे संहदिं विना नाशक्नुवन्प्रजास्त्रष्टुमसमागम्य कृत्स्नशः समेत्यान्योन्यसंयोगमन्योन्यश्रयिणश्च ते एकसङ्खादचिह्नाश्च सम्प्राप्यैक्यमशेषतः पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते जलबुद्बुदवत्तत्र क्रमाद्वै वृद्धिमागतं भूदेव्योऽ महाबुद्धे बृहत्तयम् कृतेंडे विवृद्धस ब्रह्म संज्ञि स वै शरी प्रथम स वै पुष उच्य समवर्तदा भूता ब्रह्माग्रेसर्तद तेनाव व्यालोक्यम सचराचर मेरुस्तुसो जरायुश्चा भी पर्वता समुदागर्भसलिलं तस्याण्डस्य महात्मनः तस्मिन्नण्डे जगत्सर्वं सदेवासुरमानुषं दीपाद्यद्रिसमुद्राश्च राज्योतिर्लोकसङ्ग्रहः जलनिलानला काशैस्ततो भूतादिना बहिः वृदमण्डं दश गुणैरेकेकैकत्वेन तैः पुनः महदा तत्प्रमाणेन सहैवानेन वेष्टितः महांस्तैः सहितः सर्वैरव्यक्रेण समावृतः येभिरावरणैरण्डं सप्तभैः प्राकृतैर्वृतम् अन्योन्यमावृत्य च तदा अष्टौ प्रकृतयः स्थिताः प्रकृतिर्नित्या यदन्तः पुरुषश्च सः ब्रह्माख्यपदिदोयस्ते समासा श्रूयतां पुनः यथा मग्नो जले कश्चिदुन्मज्जन् जलसम्भवः जलं च त तथा प्रकृतिर्विभु अव्यक्तं क्षेत्रमुद्दिष्ट ब्रह्मक्षेत्रज्ञ उच्यते ये तत्समस्तं जानीयात् क्षेत्रक्षेत्रज्ञलक्षणम् इत्येष प्राकृतः सर्गः क्षेत्रज्ञाधिष्ठितस्तु सः अबुद्धिपूर्वप्रथमः प्रादुर्भोदस्तडिद्यथा यीमार्कंडेयपुराणे ब्रह्मोत्पत्तिर्नाम पंचचत्याय ओ